अथ द्वितीयोऽध्यायः व्याच उवाच इति सम्प्रश्नसंहृष्टो विप्राणां रौ प्रतिभूज्यवचस्तेषाम् प्रवक्तुम् उपचक्रमे सूत उवाच यं प्रव्रजन्तम् अनुभेतम् अभेदकृत्यं त्वयिपायनो विरहकादर आजुहाव पुत्रेदि तन्मयतया तरवोऽभिनेदोऽस्तं सर्वभूतहृदयं मुनिमानदोऽस्मि यस्वानुभावम् अखिलश्रुतिसारमेकम् अध्यात्मदीपम् अदितितीर्षथां तमोन्धं संसारिणां करुणयाह पुराणगुह्यं तं व्याससूनम् उपयामि गुरुं मुनीनां नारायणं नमस्कृत्यनरं चैवनरोत्तमं। चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुतीरयेत। मुनयः साधु ङ्गलम् यत्कृतकृष्णसम्प्रश्नो येनात्मा शुप्रसीदति स वै पुंसाम् परो धर्मो यथो भक्ति अथोक्षजे अहै दुःख्यः प्रतिगता ययात्मा सम्प्रसीदति वासुदेव भगवति भक्तियोगप्रयोजितः जनयत्यासु वैराग्यं ज्ञानं च यदहैतुकं धर्मस्वनुष्ठितपुंसा विश्वक्षेण गतासु यः नोत्पादयेद्यतिरतिं शमयेव हि केवलं धर्मस्य ह्याभवर्ग्यस्य नार्त्योर्थायोपकल्पते नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः कामस्य नेत्रियप्रीतिर्लाभो जीवेत यावत जीवस्य तत्त्वजिज्ञासानार्थो यश्चेकर्मभिः वदन्ति तत्त्ववितत्त्वं यज्ज्ञानमद्वयम् ब्रह्मेति परमात्मेति भगवानिति शब्द्यते तच्छ्रद्धधाना बुनयोज्ञानवैराग्ययुक्तया पश्यन्ध्यात्मनिशात्मानं भक्त्या श्रुतगृहीधया अतः भुंवे द्विजश्चिरेष्टा वर्णाश्रमविभागसहा स्वनुष्ठितस्य धर्मस्य संसिद्धेर्हरिदोषणं तस्मादेकेन मनसा भगवान् सात्वतां पतिः श्रोतव्यकीर्तितव्यश्च a ध्येयः पूज्यश्च नित्यतां यदनुध्यासिना युक्ता कर्मग्रन्थिनिबन्धनं चिन्तन्ति गोविदास्तस्य को न कुर्यात्कथारतिं शुश्रुषो श्रद्दधानस्य वासुदेवकथा रुचिः शान्महत्सेवया विभ्रा पुण्यतीर्थनिषेवणात् शृण्वदान् स्वगता कृष्ण पुण्यश्रवणकीर्तनः द्यन्तस्तोह्यभत्राणि विदुनोति सुहृत्सतां नष्टप्रागेषु अभत्रेषु नित्यं भागवतसेवयाम् भगवती उत्तमश्लोकभक्तिर्भवति नैष्टिकी तदा रजस्तमो भावा कामलोपादयश्च ये चेतयेथै अनाविद्धं स्थितं सत्त्वे प्रसीदति एवं प्रसन्नमनसो भगवद्भक्तियो गतः भगवत्तत्त्वविज्ञानं मुक्तसङ्घस्य जायते भिद्यते हृदयघ्नन्ति चिन्ध्यन्ते सर्वसंशयाः क्षीयन्ते सास्य कर्माणि दृष्टये वात्मनीश्वरे अथो वै कवयो नित्यम् भक्तिम् परमयामुदा वसुधेवे भगवती कुर्वन्त्यात्मप्रसाधनी तत्त्वं रजस्तं यदि प्रकृतेर्गुणास्ते युक्तः परपुरुषये इहास्य धत्ते स्थित्याधये हरिभिरिञ्चि हरेति सञ्ज्ञाः श्रेयांसि तत्र खलु सत्त्वधनोर्नृणांश्युः पार्तिवाद्धारुणो धूमस्तस्मादग्निः तमसस्तु रजस्तस्मात् सत्त्वं यद्ब्रह्मदर्शनं भेजिरे मुनयोधाग्रे भगवन्तम् अधोक्षजं सत्वं विशुद्धक्षेमाय कल्पन्ते येऽनुदानिहा मुमुक्षवो घोररूपान् हित्वा भूतपदी न धा नारायणकला शान्ता भजन्ति अनुसूयवः रजस्तमः प्रकृतय समशीला भजन्ति वै पितृभूतप्रजेशातिन् श्रियैश्वर्यप्रजेत्सवः वासुदेव परा वासुदेव परामहाः वासुदेव परायोगा वासुदेव पराक्रियाः वासुदेव परं ज्ञानं वासुदेव परं तपः वासुदेव परो धर्मो वासुदेव परा स एवे तं सर्जाग्रे भगवान् आत्ममायया सतसत्रूपया चासौ गुणमय्या गुणो विभुः तया विलसितेष्वेषु गुणेषु गुणवानि वा आभाति विज्ञानेन विजृम्बितः यथा ह्यवहितो भग्निर्धारुष्वेकस्वयोनिषु नानेव भाति विश्वात्मा भूतेषु च तथा भूमान् असौ स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् भावयत्येष सत्त्वेन लोकान् वै लोकभावनः लीलावतारानुरथो देवधिर्यनरादिषु इति श्रीमद्भगवते महापुराणे प्रथमस्तन्ते नैमीषीयो भाग्याने द्वितीयोऽध्यायः